मुद्गलपुराणं खण्डम् एय्ट् धूम्रवर्णचरितम् अध्यायम् फोर्टि चादुर्मास्यव्रतमाहात्म्यनिरूपणम् श्रीगणेशाय नमः सूत उवाच जाजलिप्तं विभाण्डं स तदो ददौ महामनुम् पञ्चाक्षरम् गणेशस्य विधियुक्तम् विधानविद मन्त्रम् प्राप्य महाभागो जाजलेराश्रमे जा स्थितः बलालेशम् समभ्यर्च्यव्रतम् चकार भक्दः गणेशपञ्चकम् कृत्वा ध्याननिष्ठो बभूवः कार्तिक्यां पूर्णिमायां तु यय्यौ बल्लालनायकः तं दृष्ट्वा सहसोद्धाय प्रणदो प्रणतोऽभवद पूज्यतुष्टाव नानास्तोत्रायि सुकर्षितः ततः प्रसन्नतां व्यादो बल्लालेशो महामुने योगशान्तियुदं विप्रम् कृत्वा दर्धानगो तदादि तदादिगाणपत्यश्च विभाण्डप्रबभूवः बल्लालेश परो भूत्वा चचार मनसेरिदः विभाण्डक उवाच कृत्वैवं योगशान्तिस्थोभवं सर्वैः सुवन्दिदः बृहदस्व कुरुष्वत्वं व्रतं गाणेश्वरं परम् एवमुक्त्वा ददौ तस्मै मुनिर्मन्द्रम् दशाक्षरम् गणेशस्य महायोगी विधियुक्तं महामुने तं प्रणम्ययौ स्थानं स्वकीयं बृहदश्वकः चादुर्मास्य चक्रे गणेश पञ्चके रतः बृहदश्वायविघ्नेशो ददौ योगं सुशान्दिदं गणेश्वरं सोऽपि नित्यमभजद्भक्ति संयुतः अन्यां च शृणु विप्रेष चतुर्मास्य भवां कथां विभाण्डस्य च वीर्यं भूमिमंडल तद्ग्य च वने संस्ता हिणी तृण संयुम अमोकम तत्षण सा भूद गर्भयुक्ता महामुने तस्यां पुत्रो भवत जो युदफ परहा, ललाडे युद्पर लाडे शृंगधारी सृष्य श्रृंगद स्मृत नारदेनाभ्यु विभाण्डस्थं समानयद स्वाश्रमे सर्वसंस्कारान् कारयामास विप्रपैः कदा तमृष्यशृङ्गं लोमपादो नृपोत्तमः अप्सरोभिः समाहृत्य स्वपुरे अनावृष्टिभवं दुःखं जनानां वीक्ष्य भूमिपः स्वात्मजां प्रदतौ तस्मै शान्दां गुणयुतां परां सद्यो वृष्टिः समुत्पन्ना जनानां दुःखनाशिनी शान्दया विप्रपोरेमे मे हर्षनिर्भरमानसः कदा स्वपितरं विप्रो भार्यया प्रजगामः न विभाण्डं तत्रैव संस्थितसेवनोत्सुकः विनयेन समयुक्तं पुत्रं दृष्ट्वा तपोयुधन् जगादत्तं महायोगी विभाण्डप्रेमसंयुधः विभाण्ड उवाच ब्रह्मणि ब्रह्मभूतो यो परिकीर्तितः अतस्त्वं पुत्र भाव्येन भवब्राह्मण उत्तमः एवमुक्त्वा ददौ तस्मै मन्त्रं गणपदे शुभं सविधिं तं नमस्कृत्य पुत्रत्वं साधयत्परं शान्तया भार्यया सार्धं चाधुमास्य व्रते रदः गणेशपञ्चकं सेव्य ध्याननिष्ठो बभूवः नित्यं योगपरो भूत्वा प्रार्थयद्गणनायकं कुरु योगीन्द्रवन्द्यं मां सभार्यं गणनायक व्रतमात्रेण सन्तुष्टो ध्यानेन तपस प्रभुः ददौ योगं गणाधीश ऋष्यशृङ्गाय धीमते ततः सभर्यया सार्धं बभूवः शान्तियुक्तस्वभावेन भजद् विघ्नेश्वरं मुदा एतस्मिन्नन्तरे तत्र लोम पादो नृपोत्तमः आययौ प्रार्थयामास विभ्राण्डं प्रीतिसंयुधः ऋष्यशृङ्गं सुधायुक्तं प्रार्थयित्वा समानयद स्वपुरे तं समास्थाप्य तदाज्ञावशगोऽ भवद नित्यं सोऽपि गणाधीशमभजनृपनायकः उपदिष्टस्वजामात्रा चातुर्मास्यपरायणः अन्धे जगामविघ्नेशं राजा धर्मभृदाम्बरः एवं नानाजनाविप्रव्रतेन सिद्धिमाययुः तत्र तेखं कदिभ्रूयां वक्तुं शक्तो न सर्वदा चादुर्मास्य समं मुख्यं व्रतं नैव विनिश्चितम् येखः कैवर्तकः कोऽपि नाम्नानादकरः स्मृतः स कदाचिद्विजान् दृष्ट्वा प्रणदोऽ भून्महामुने सादुर्मस्य व्रते संस्थान् दृष्ट्वा पप्रच्छभक्तिदः कीदृश्यं व्रतमुख्यम् मे ब्रूद विप्रेन्द्रमुख्यकाः ततस्ते विनदं दृष्ट्वा कथयामासुरादराद व्रतम् गाणेश्वरम् मुख्यम् सविधि मुनिसत्तम श्रुत्वा नम्यस तान् विप्रान् ययौ स्वगृहमादराद चादुर्मास्य व्रदे स्नात्वा चक्रे गणेशदर्शनं भजनं खडिकामात्रं ततः स का कार्यकारकः बभूवनिन्दयन्देहं गणेशे भक्तिवर्जितं ततः कदाचिन्मार्गस्थं कार्यार्थं वनगोचरं तत्र तं भक्षितुं व्यादा वनस्थादश राक्षसाः स गणेशं भयोद्विग्नः सस्मार हृदि सर्वपं राक्षसास्य सान्निध्य मा जग्मुर्भक्षणार्थितः दृष्ट्वास जलमादाय गणेशाय नमो यदि मन्त्रमुच्चार्यतान् दुष्टान् शिषे च भयसङ्कुलः गणेशनाम मन्त्रेण मन्त्रितेन जलेन पृष्ठा जादिस्मरा जादा रुरुदुस्तम् प्रणम्यतु ऊजुप्राञ्जलयो भूत्वा नादकरं महामुने राक्षसा दुःखसंयुक्तास्तं प्रणम्य दयायुधं राक्षसा ऊजुः वयं ब्राह्मणजादिस्ता पूर्वजन्मनि शूद्रज तत्राचारविहीनाश्च भवामस्म निरन्तरं विषये सकृता मृदा यमगृहे गताः यमेन विविधेष्वेव निक्षिप्ता च भुक्त्वा पापभवं दुःखं राक्षसा मानदायका जादाः सुधासमाविष्टाश्रमामो यत्र तत्र तु दैवयोगेन ते साधो दर्शनं भाग्यगौरवादप्राप्तं ते जलपादेन वयं कृदाः अधुना तारया मां त्वं शरणं त्वां समागदान् देहि पुण्यं महाभागणेशकीर्तने भवम् एवं तेषां नादकरो वच श्रुत्वा दयायुधः ज्ञात्वा माहात्म्यमुख्यं तानुवाच नादकर उवाच गणेशकर्तन सेण्यम वक्त न शक्य कथित गुरभि पूर्व ब्राह्मणस्तको विध अदो रास जातिस्ता वच शृणुत मेहदम चादुर्मा से मै नि कीर्तनम क्रीय परम यकना पुण्यम दाया दयायुध चादुर्मा से संशय तेन बंधनहना भविष्य विचक्षण ये मुक्त दद्य पुण्यम नाम संभव दत्ते सामता भवन लोक महामुने गणेश्वरं तत्र दृष्ट्वा ब्रह्मभूता बभूविरे एवं व्रतस्य माहात्म्यं कथने नैव शक्यते चादुर्मास्य भवं चित्रं चरितं कथितं मया सङ्क्षेपेण महाविप्र भुक्तिमुक्तिफलप्रदं शृणुयाच्छ्रावयेद्यस्तु पठेद्भावसमन्वितः सो पिव्रतफल लब्ध्वा मनसेपितुयाद तत्सदिधि श्रीमदाज्ये पुराणोपनिषिश्रीम उद्दे महापुराणे अष्टमे खंडे धूम्रवर्णचरि चादुर्मा व्रतमात्म्य निरूपण नाम चुरीश्योध्याय ओं